निवृत्त्योपयुस्तूर्णम् स्वंपुरं पुरं पुरुषर्षभाः स्यन्दनेनाथ कृष्णोऽपि त्वरितं द्वारकामगात् सात्वतेन च वीरेण पृष्ठतो यायिना तदा दारुकेण च सूतेन सहितो देवकी सुतः स गतो द्वारकां विष्णुर्गरुत्मानिव वा मेघवान् वैशम्बाय नवाच निवृत्य धर्मराजस्तु सः भ्रातृभिरच्युतः सुहृत् परिवृतो राजा प्रविवेश पुरोत्तमम् विसृज्य सुहृदः सर्वान् भ्रातॄन् पुत्रांश्च ृपा केशवोऽपि मुदा युक्तः प्रविवेश पूज्यमानो यदु श्रेष्ठैरुग्रसेन मुखैस्तथा आहुकम् मातरं च यशस्विनीम् अभिवाद्य कमललोचनः प्रद्युम् न साम्बनिषठां तथा अनिरुद्धं च भानुं च परिष्वज्य जनार्दनः सवृद्धैरभ्यनुज्ञातो रुक्मिभवनम् सर्वरत्नविभूषिताम् विधिवत् कल्पयामास सभां धर्मसुताय वै इति श्रीमहाभारते सभापर्वणि सभाक्रियापर्वणि भगवद्याने द्वितीयोऽध्यायः